अरण्यकाण्डं सर्गम् एठ् श्रीमहादेव उवाच रामो मायाविनं हत्वा राक्षसं कामरूपिणं प्रतस्थे स्वाश्रमं गन्तुं तदो दूरादर्शतम् आयान्दं लक्ष्मणं दीनं मुखेन परिशुष्यता। राघवश्चिन्तयामास स्वात्मन्येव महामतिः लक्ष्मणस्तन्नजानादि मायासीतां मया कृतां ज्ञात्वाप्येन सोचामि प्राकृतो यथा यद्यहं विरदो भूत्वा तूष्णीं स्थास्यामि मन्दिरे तदा राक्षसकोटीनां वधोपाय कथं भवेद् यदि शोचामि तां दुःखसन्दब्धकामुको यथा तदा क्रमेणानुचिन्वन् सीतां यास्ये सुरालयं रावणं सकुलं हत्वा सीतामग्नौ स्थितां पुनः मयैव स्थापितां अहं मनुष्यभावेन जातोऽस्मि ब्रह्मणार्थितः वसामि कौ ततो मायामनुष्यस्य चरितं मे नुशृण्वतां मुक्तिस्यादप्रयासेन भक् कृमार्गानुवर्तिनां निश्चित्यैवं तदा दृष्ट्वा लक्ष्मणं वाक्यमब्रवीत् किमर्थमाकतोऽसि त्वं सीतां त्यक्त्वा मम प्रियां नीता वा भक्षिता वापि राक्षसैर्जनकात्मजा लक्ष्मणः प्राञ्जलिः प्राह सीताया हा लक्ष्मणेदिवचनं राक्षसोक्तं श्रुतं तया त्वद्वाक्यसदृशं श्रुत्वा मां गच्छेदि त्वरा मया प्रोक्ता देवी राक्षसभाषितं नेदं रामस्य वचनं स्वस्था भव शुचिस्मिते इत्येवं सान्त्विता साध्वी मया प्रोवाच मां पुनः यदुक्तं दुर्वचो राम नवाच्यं वाच्यं पुरतस्तव कर्णौ पिधाय निर्गत्य यादोऽहं त्वां समीक्षितुं रामस्तु लक्ष्मणं प्राह तथाप्यनुचितं कृतं त्वया स्त्रीभाषितं सत्यं कृत्वा त्यक्ता शुभानना नीता वा भक्षिता वापि राक्षसायैर्नात्र संशयः यदि चिन्तापरो रामस्वाश्रमं त्वरितो ययौ तत्रा दृष्ट्वा जनगजां विललापादिदुःखितः हा प्रिये क्व नासि पूर्ववदाश्रमे अधवा मद्विमोहार्थं लीलया क्व विलीयसे इत्याचिन्वन् वनं सर्वं नापश्यज्जानकीं तदा वनदेह्यः कुतः सीतां ब्रुवन्तु मम वल्लभां मृगाश्च पक्षिणो वृक्षा दर्शयन्तु मम प्रियाम् इत्येवं विलपन्नेव रामसीतां न कुत्रचित् सर्वज्ञ सर्वथा क्वापि नापश्यद्रघुनन्दनः आनन्दोऽप्यन्वशोचतामचलोऽप्यनुधावति निर्ममो निरहङ्कारोप्य खण्डानन्दरूपवान् मम जायेति विललापादि दुःखितः एवं मायामनुचरन्न सकृतोऽपि रघुत्तमः आसन्न इव मूढानां बाधितत्त्वविदां न हि वनं रामः लक्ष्मणः भग्नं रथं छत्रचापं कूबरं पतिदम्भुवि दृष्ट्वा लक्ष्मणमाहेदम् पश्य लक्ष्मणकेनचिद नीयमानां जनकजां तं जित्वान्यो जहारतां ततः कञ्चित् गत्वा पर्वतसन्निभं रुधिराक्रवपुर्धृष्ट्वा रामो वाक्यमधा ब्रवीद यष वै भक्षयित्वा जानकीं शुभदर्शनं चेदे विविक्तेदि वी तृप्तः पश्य हन्मि निशाचरम् चापमानाय शीघ्रम्ये बाणं च रघुनन्दन तच्छ्रुत्वा रामवचनं जडायुः प्राह मारयभद्रं जडाय। ते म्रियमाणं स्वकर्मणा अहं जडायुस्ते भार्या हारिणं समनुद्रुतः हा। रावणं तत्र युद्धं मे बभूवारि विमर्दन तस्य वाहान् रथं चापं चित्वाहं तेन खादितः पतितोऽस्मि जगन्नाथप्राणान् त्यक्ष्यामि पश्य मां तच्छ्रुत्वा राघवो दीनं कण्ठप्राणं हस्ताभ्यां रामो दुखाश्रु दुखाश्रुवृतलोचन जडा ब्रूहि मे भारा के नीदाशुभ मक्या हदो सिमदो मे प्रियंधव वाचा वक्द्रक् सूदमन उवाच रावण राम राक्षसो भीम आदाय मैथिलीं सीतां दक्षिणाभिमुखो इदो वक्तुं न मे शक्रिप्राणान् त्यक्ष्यामि ते ग्रतः दिष्ट्या दृष्टोऽसि रामत्वं म्रियमाणेन मेनख परमात्मासि विष्णुस्त्वं मायामनुजरूपधृक अन्धकालेऽपि दृष्ट्वा त्वां मुक्तोऽहं रघुसत्तम हस्ताभ्यां स्पृश मां राम पुनर्यास्यामि पदम् तथेदि रामः पस्पर्श तदङ्गं पाणिना स्मयन् ततः प्राणान् परित्यज्य जडायुः पतितो भुवि रामस्तमनुशोचित्वा बंधुवत्साश्रुलोचनः साश्रुलोचनः लक्ष्मणेन समानाय्य काष्ठानि प्रददाहतं स्नात्वा दुःखेन रामोऽपि लक्ष्मणेन समन्वितः अत्वा वने तत्र मांसखण्डान् समन्ददः शादे प्राक्षिपद्राम पृथक पृथ गे कथा पक्ष पक्षिश्वृदिट्वार कव प्रा जड़ा गत्पद मत्सूप्यम भज स्वाद्यलोक पश्य दिव्यरूप ततोऽनन्तरमेवासौ विमान विमानवरमारुह्य भास्वरं भानुसन्निभं शङ्खचक्रगदापद्मकिरीडवरभूषणैः द्योतयन् स्वप्रकाशेन पिदाम्बरधरोमलः चतुर्भिः पशदैर्विष्णोस्तादृशैरभिपूजितः स्तूयम योगिगण रामष्य सर कृतापुटो भूतुनम जड़ा युवाच अगणितगुणम्रमेय सकल जगत् संयमेदु उपरम पर सततमहं प्रणतोऽस्मि रामचन्द्रं निरवधि सुखमिन्दिराकडाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखं नरवरमनिशं नदोऽस्मि रामं वरदमहं वरचापबाणहस्तं त्रिभुवनकमनीयरूपमीढ्यम् रविशदभासुरमीहितप्रधानं शरणदमनिशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपद्ये भव विपिनदवाग्निनामधेयं भवमुखदैवदैवतं दयालुं दनुज दनुजपदिसहस्रकोटिनाशम् रवितनया सदृशं हरिं प्रपद्ये अविरत भवभावनादिदूरं भवविमुखैर्मुनिभिः सदैव दृश्यं भवजलधिसुतारणाङ्घ्रिपोदं शरणमहं रघुनन्दनं प्रपद्ये गिरिशगिरिसुधामनोनिवासम् गिरीवरधारिण मिहिताजेन्द्र सीता सुरवरदं सुरवर दखुनायकं प्रपद्ये परधन परदार वर्जितानां परवर्जिताषु तुष्टमानसानां। परहितनिरतात्मनां सुसेव्यं भुजलोचनं प्रपद्ये सुरराज स्मितरुचिरविकासिताननाब्जमधिसुलभं सुरराजनीलनीलं सितजलरुहचारुनेत्रशोभं रघुपदिमीश गुरोर्गुरुं प्रपद्ये हरिमलज शंभेदा विभागुणुत्व जलपूरिद पात्रेमरपदे स्तुति पात्र मीशमीडे रिपतिशतकोटिुंदराग शतपथ गोचर भावनादूर यधिपदिहृदये सदा विभादं रघुपतिमार्तिहरं प्रभुं प्रपद्ये इत्येवं स्तुवतस्तस्य प्रसन्नो भूद्रघुत्तमः उवाच गच्छ भद्रं ते मम विष्णोः परं पदं शृणो इदं स्तोत्रं लिखेद्वा नियतः पठेद स यादि मम सारूप्यं मरणे मत् स्मृतिं <mrdiṁ labheda> लभेत् इति राघवभाषितं तदा श्रुतवान् हर्षसमाकुलो द्विजः रघुनन्दनसाम्यमास्तिदः प्रययौ ब्रह्मसुपूजितं पदम् इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे अरण्यकाण्डे अष्टमः सर्गः ॐ